श्रीमद्भागवत् महापुराणं द्वादशस्कन्ध अस त्रयोदशोऽध्यायः विभिन्नपुराणो की श्लोकसङ्ख्या और श्रीमद्भागवत्की महिमा श्रोतुवाच यं ब्रह्मा वरुणेन्द्ररुद्रमरुतस्तुन्वन्ति दिव्यैस्तवैः वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं शामगाः ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुषुरा सुरगुणा देवाय तस्मै नमः पृष्ठे भ्राम्यद मन्दमन्दरगिरे ग्रावाग्रकण्डूयनान्निदाद्रारो कमठा कृते भगवतः श्वासा निलापान्तु यः संस्कारकलानुवर्तनवशाद्वेलानिभेनाम्भसां यातायातमतन्त्रितं जलनिधेन्नाद्यापि विश्राम्यते पुराणसङ्ख्यासम्भूतिम् अस्य वाच प्रयोजने दानं दानस्य माहात्म्यं पाठादेश ्राह्मं दशसहस्राणिपाद्यं पञ्चोनषष्टि च श्रीवैष्णवं त्रयोविंशश्चतुर्विंशतिसेवकं दशाष्टौ श्रीभागवतं नारदं पञ्चविंशतिः मार्कण्डं नवबाह्णं च दशपञ्चचतुश्शतं चतुर्दशभविष्यं स्यात् तथा पञ्चशतानि च दशाष्टौ ब्रह्मवैवरतं लिङ्गमेकादशैवतु चतुर्विंशतिवाराहम् एकाशीतिसहस्रकं कान्दं शतं तथा चैकं वामनं दशकीर्तितं कौर्मं सप्तदशाख्यातं मात्यं चतुश्चतुर्दश एकोनविंशत्सोपर्णं ब्रह्माण्डं द्वादशैवतु एवं पुराणसन्दोह चतुर्लक्ष उदाहितः तत्राष्टादुस्साहस्रं श्रीभागवतमिष्यते इदं भगवता पूर्वं ब्रह्मणेनाभि पङ्कजे स्थिताय भवभीताय कारुण्यासं प्रकाशितम् आदिमध्यावसानेषु वैराग्याख्यानसंयुतं हरिलीलाकृता व्रातामृतानन्दीतसन्तरम् सर्ववेदान्तसारं जन् ब्रह्मात्मैकत्वलक्षणं वस्त्वद्वितीयं तन्निष्टं कैवल्यैकप्रयोजनम् प्रोष्ठपद्यां पौर्णमास्यां हेमसिंहशमन्वृतं ददाति यो शयाति परमां गतिं राजन्ते तावदन्यानि या मन्या दृश्यते साक्षात् श्रीमद्भागवतम् परम् सर्ववेदान्तसारम्भिः श्रीभागवतं स्यते तदृसामृततृप्तस्य नान्यत्र स्याद्वतीगते निम्नगानाम् यथा गङ्गादेवानाम् अत्यतो यथा वैष्णवानाम् यथा शम्भो पुराणानामिदं तथा नेत्राणां चैव सर्वेषां यसाकाशीयनुत्तमा तथा पुराणभ्रातानां श्रीमद्भागवतं द्विजाह श्रीमद्भागवतं पुराणममलं यद्वैष्ठवानां प्रियं यस्मिन् पारमहंसिमेकममलं ज्ञानं परं गीयते तत्र ज्ञानविरागभक्तिसहितं नैष्कर्ममाविष्कृतम् तच्छृण्पठन् विचारणपरो भक्त्या विमुच्चै नरः कस्मै येन विभासितोऽयमतुलमो ज्ञानप्रदीपुरा तद्रूपेण च नारदाय मुनिये कृष्णाय तद्रूपिणा योगीन्द्राय तदात्मनाथ भगवन् राताय कारुण्यतस्तक्षुद्धं विमलं विशोकममृतं सत्यं परं धीमहि नमस्तस्मै भगवते वासुदेवाय साक्षिणे य इदं कृपया कस्मै व्याचितक्षेममुक्षवे योगिन्द्राय नमस्तस्मै शुकाय संसार संसारसम्पदर्ष्टं यो विष्णुरातममुचत धवे भवे यथा भक्ति भक्तिपादयोस्तव जायते तथा कुरुश्च देवे स नाथस्त्वं प्रभो नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम् प्रणमो दुःखसमरस्तं नमामि हरिं परम् इति श्रीमद्भागवते महापुराणे वैयासिक्याम् अष्टादशसहास्रायां पारमहंस्यां संहितायां द्वादशस्कन्धे त्रयोदशोऽध्यायः इति द्वादशस्कन्धः समाप्तः पूर्णोऽसम्पूर्णोऽयं ग्रन्थः त्वदीयं वस्तु गोविन्द त्वभ्यमेव समर्पये तेन त्वदङ्घ्रिकमले रतिं मे यक्ष